श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथ षष्टसप्ततितमोऽध्यायः साल्वकी साथ यादमूकायुद्ध शेषोकुवाच अथान्यदपि कृष्णस्य शृणुकर्माद्भुतं नृप क्रीडानरशरीरस्य यथा शोभपतिर्हतः शिशुपालशखशालो रुक्मिण्युद्ध्वा आगतः यदुर्भिर्निर्जितसङ्ख्ये जरासन्धादेयस्ततां सार्वप्रतिज्ञामकरो शृण्वतां सर्वभूभुजाम् अयादवीं क्षुमां करिष्ये पौरुषं मं पश्यत इति मूढप्रतिज्ञाय देवं पशुपतिं प्रभुम् आराधयामासनिपपांशुमुष्टिं शकिर्यसन् संवत्सरां ते भगवानाशुतोष उमापतिः वरेण छन्दयामास साल्वं शृणमागतम् देवासुरमनुष्याणां गन्धर्वो रगरक्षसाम् अभेद्यं कामगं वव्रे सयानं विष्णुभीषणं तथे ते गिरिसादिष्टो मया परपुरञ्जयः पुरं निर्माय साल्वाय प्रादा शोभमयस्मयं स लब्ध्वा कामगं जानं तमो धाम दुरासदं वैरं विष्णे कृतं स्मरन् निरुध्य सेतया साल्वो महत्या भरतर्षभ पुरीं विभञ्जोपं पुवनान्युद्यानानि च स गोपुराणि द्वाराणि प्रासादार्तालतोलिकाः विहारन् सा विमानाग्रान्निपयतु शस्त्रबेष्टयः तिलाद्रुमाश्चासनय सर्पा आसारशर्कराः प्रचण्डश्च क्रुमातो भूद्रजसाच्छादितादिश इत्यर्तमानां शोभेन कृष्णस्य नगरीम् भृशम् नाभ्यपद्यत सम्राजन् त्रिपुरेण यथामही प्रद्यं लो भगवान् वीक्ष्य बाध्यमानानुजा प्रजा मा भैष्टेत्यभ्युदाम्बान्धाद्वीरो रथारूढो महायशा सात्के चारुतैष्णश्च सहानुज। क्रूरसहानुज हार्दुक्योभानुविन्दश्च गदश्च सुखचारणौ अपरे च महे श्वासारथयूथपयूथपा निर्ययोर्जंसिता गुप्ता रथे भास्वपदातिभि ततः प्रवृत्ते युद्धं साल्वानां यदुभिः सह यथासुराणां विबुधयतुमलं लो महर्षणम् तास्य शोभपतिर्मायादिवास्यैरुक्मिणीसुतः लेन नाशिया वास नैशन्तवं तमैवोष्णगुं विव्याधपञ्चविंशत्यां स्वर्णपुङ्खैरयो मुखै छाल्वस्य ध्वजनी पालं शरैषन्नतपर्वभिः तदेनाताडि यच्छाल्वम् एकैके एक नाशि सैनिकान् दशभिर्दशभिर्नेत्रिन्वाहनानि त्रिभिः त्रिभिः तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः दृष्ट्वा तं पूजयामासु सर्वेष्वपरसैनिकाः दारूपैकरूपं तन्दृश्यते न च दृश्यते मायामयं मयि कृतं दुर्भाव्यं परेरभून् क्वचिद् भूमौ क्वचिद् व्योम्नि जले क्वचिन् अलाचक्रबध्वाम्यशोभं तद्दुरवस्थितं यत्र यद्योपलक्ष्येत स शोभः स सैनिकः साल्वतस्तत्ततो मुञ्चन् सरांसात्वति यूथपा शरैरग्न्यर्कं सम्पर्शौ राशिविसदुरासदये तीड्यमानपुराणेकसाल्वो मुह्यद् प्रेरितये ताल्वाणी कपशस्रौघै विष्णुवीराभिषार्जिताः न तत्यजूरणं संलोकद्वये जिगीषवः साल्वामात्योदमान्नाम प्रद्युम्नम् प्राप्रपीडितः आसाद्य गदयामौर्व्याम् द्राहित्य वनदद्बले प्रद्युम्नं गदयागेण वक्ष स्थलमरिन्दमम् अपोवाह ऋणासूतो धर्मविदारुकात्मजः लब्धसंज्ञो मुहूर्तेन काश्नीसारथिम् अब्रवे। अहो असाद्विदं सूत यदृणान्वेपसर्पणं तन्न यदूनां कुले जात श्रूयते रणविच्युतः दिनामत्क्लीबचित्तेन सूतेन प्राप्त किल्विषात् किं नो वक्षे वि सङ्गम्य पितरौ रामकेशवौ युद्धा सम्यग् व्यक्तं तक्रान्तपृष्टस्तत्रात्मनक्षमम् व्यक्तम्बे कथयन्ति हसन्त्यो भ्रातिजामय क्लेव्यं कथं कथं वीरतवाण्यैकत्यतामृधे सारथिर्वाच दर्वं विजानता यस्मन्कृतमे तन्मया विभो कृ गतं रक्षे द्रशनं सारथिं रथे एतद्विदित्वा तु भवान् मायापोवाहितो रणात् उपसृष्ट परेणेति मूर्झितो गदयाहतः इति श्रीमद्भागवते महापुराणे वारभुंसां चैतायां दतं स्कन्धे उत्तरार्धे सार्वयुद्धे